एवमुक्त्वा ततः सद्यस्तम् प्राणैर्विप्रयुज्य च शक्तिनम् भक्षयामास व्याघ्रः पशुमिवेप्सितम् शक्तिनम् तु मृतम् दृष्ट्वा विश्वामित्रः पुनः पुनः वसिष्ठस्यैव पुत्रेषु तद्रक्ष सन्दिदेशः सताञ्छक्त्यवरान् पुत्रान् वसिष्ठस्य महात्मनः भक्षयामास सङ्क्रुद्धः वसिष्ठो घाति तान् श्रुत्वा विश्वामित्रेण तान् सुतान् धारयामास शोकं शोकम् महाद्रिरिव मेदिनीम् चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः नत्वेव कौशिकोच्छेदं मेने मतिमतां वरः समेरुकूटादात्मानम् मुमोच भगवान् ऋषिः गिरेस्तस्य शिला यान्तु तूलराशा सयदातेन पाण्डव तदाग्निमिद्धं भगवान् संविवेश महावने तं तदा सु समिद्धोऽपि न ददाह हुताशनः दीप्यमानोऽप्यमित्रघ्नशीतोऽग्निरभवत्ततः ससमुद्रमभिप्रेक्ष्य लोकाविष्टो महामुनिः बद्ध्वा कण्ठे शिलां गुर्वीं निपपातदाम्भसि ससमुद्रोऽभिर्वेगेन महामुनिः न जगाम सतत खिन्न पुनरे वाश्रमं प्रति इति महाभारते श्रीमनभार महा आदिपर्व चैत्ररथ पर्वि वसीषे वसीके पंच सप्तमोध्याय